श्रीहरये नमः द्विसप्ततितमोऽध्यायः श्रीशुक उवाच ये कादुसभामध्ये आस्तितो मुनिभिर्व्रतः ब्राह्मणैः क्षत्रियैर्वैश्यर्भ्रातृभिश्च युधिष्ठिरः आचार्यैकुलवृद्धैश्च ज्ञाति सम्भन्ति भान्तवैः शृण्वतामेव चैतेषाम् आभाष्ये तमुवाचः क्रदुराजेन गोविन्द राजसूयेन पावनी यक्ष्ये बवतस्त नः प्रभो त्वत्पादुके विरथं परिये चरन्ति ध्यायन्त्य भद्रनशने सुचयो गृणन्ते विन्दन्ति ते कमलनाभवा बवर्गम् आसासते यदि स आशिषै ्ये तद्देवदेव भवदश्चरणारविन्द सेवानुभावमिक पश्यतु लोक एषः ये, ये त्वां भजन्ति न भजन्त्युतवो भयेषां निष्ठां प्रदर्शय विभो कुरु सृञ्जयानां न भ्रं गणस्वपरभेतमतिस्तव सर्वात्मनः संवेसतां तं वे सतां सुरतरोरिवते प्रसाद श्रीभगवानुवाच सम्यक् व्यवसितं राजन् भवता शत्रुकर्षण कल्याणी येन ते कीर्तेर्लोकाननुभविष्यते ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो सर्वेषामपि भूतानाम् ईप्सितक्रतुराढयं विजित्य नृपतीन् कृत्वा च जगतिम् संहृत्य सर्वसंभारान् आकरस्वमहाक्रतुम् ये ते ते भ्रातरो राजन् लोकपालां सम्भवाः जितोऽस्न्यात्मतोदेहं दुर्जयो यो कृतात्मभिः न कच्चिन्मत्परं लोके तेजसा यससा श्रिया विभूतिर्वाभिभवते देवोऽपि किमु पार्थिवः श्रीसुख उवाचा निशम्य भगवद्गीतं प्रीतः पुल्लमुकाम्बुजः भ्रातृन् दिग्विजये युङ्क विष्णुतेजोपबृंहितान् सह देवं दक्षिणस्यामां दिशः सह सुरुञ्जयैः दिशि प्रतीचां न सव्यसाशिनं प्राच्यां मृगोधरं मत्स्ये केकयै सकमत्र कैः ते विजित्य नृपान्वीरा आजह्रोर्दिग्भ्यवोजसा अजातशत्रवे भूरि द्रविणं नृपयक्षते श्रुत्वाजितं जरासन्धं नृपते ध्यायतो हरिहे, आहोपायं तमोवाद्य उद्धवोयमुवाचः भीमसेनोऽर्जुनकृष्णो ब्रह्मलिङ्गतरास्त्रयः जग्मुर्गिरिव्रजं तत बृहत्र सतु बृहद्रथसुतो यतः के गृहेषु गृहमे ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः राजन् विद्यतिथीन् प्राप्ता नर्तिनो दूरमागतान् तन्नः प्रयश्च ते यत् वयं कामयामहे किं दुर्मर्शन्तिक्षुः किम कार्यम साधु किं न देयं वदान्यानां कः परः समदर्शिनां यो नित्येन शरीरेण सताङ्गेयं यशोध्रुवं नाचिनोति कल्प स वाच शोच्च एव सः हरिश्चन्द्रोरन्ति देव उञ्च वृत्तिस्सिभिर्बलिहे व्याधः कपोतो बहवो ह्यद्रुवेण ध्रुवं गताः श्रीसुकौवाच स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्जाहतैरपि राजन्यभन्तोन्विज्ञाय द्रष्टपूर्वा न चिन्तयत् राजन्यभन्तो ह्येते ब्रह्मलिङ्गानि बिभ्रते dadami bikshitam tebhyam atma namapi du त्यजम् बलेर्नु श्रूयते कीर्तेर्वितदिक्ष्वकल्मष ऐश्वर्याद्भ्रंसितस्यापि विप्रव्याजेन वे विष्णुना श्रियं जिकीर्षतेन्द्रस्य विष्णवेद्विचरूपिणी जानन्नपि महीम् प्राधात् वार्यमाणोऽपि दैत्यराट् जीवता ब्राह्मणार्थाय कोन्वर्थक्षत्रबन्धुना देखेन पदमानेन नेहता विपुलं यशः इत्युदारमतिः प्राहन् कृष्णार्जुनवृकोदरान् हे विभ्राव्रियतां कामो दधां यात्मशिरोऽपि श्रीभगवानुवाच युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे युद्धार्तिनो भयं प्राप्त राजनान्न काङ्क्षणः असौ वृगोतरः पार्थस्तस्य भ्रातार्जुनो कृष्णं जानीहि ते रिपुं एवं जकासोश्चैस्ममागतः आगचामर्षितो मन्द युद्धं तर्हि दतामिव न त्वया भीरुणायोत्स्ये युधि विक्लवचेतसा मधुरां त्यक्त्वा समुद्रं शरणं गतः अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः अर्जुनो न भवेद्योध भीमस्तुल्यबलो मम इत्युक्त्वा भीमसेनाय प्राधाय महतीं गतां द्वितीयां स्वयमाधाय निर्जघाम पुराद्बहिः ततः समे कले वीरौ संयुक्तौ इतरेतरो जज्ञतुर्वज्रकल्पाभ्यां गदाभ्यां मण्डलानि विचित्राणि सव्यं दक्षिणमेव चरतो सुशुभे युद्धम् नटयोरिव रङ्गिणोः ततश्चटचाशब्दो वज्रनिष्पेशसन्निभहान् गतयोक्षिप्तयो राजन् दन्तयोरिव निबात्यमाने अन्योन्यतों सकटिभातकरोरुजद्रोन् शूर्णि बभूवतु रुपेत्ययतार्कशाखे संयुध्यतोऽद्विरतयोरिव दीप्तमन्यभोः इत्थं तयो बृहतयोर्घतयोर्नृवीरौ कृतौ स्वमुष्टिभिगयः स्पर्शैर सत्तस्तयो बींष्टान् सप्तस्तयो प्रखरतोरिभयोरिवासेत् निर्गातवज्रवपरुषस्तलताडनोदः तयोरेवं प्रहरथोत्समशिक्षाभलौ जसोः निर्विशेषं भोद्युद्धम् अक्षीणजवयोर्नृप एवं, अक्षी एवं युद्यतो युध्यथो सप्तविंशतिः दिनानि निरकंस्तत्र सुहृद्वन्निसि तिष्ठतोः एकदा मातुलेयं वै प्रागराजन्मृगोधरः नसक्तोकं जरासंतं जरासन्तं निर्जेतुं युधि माधव सत्रोर्जन्मृति विद्वान् जीवितं च जराकृतं पार्थमाप्याययन् स्वेन तेजसा चिन्तयद् हरिः सञ्चिन्त्यारिवधोपायं भीम श्यामोगदर्शणः दर्शयामास विटपं पाठयन्निव संज्ञया तत् एकम् पातम् पदाक्रम्य दोर्भ्यामन्यम् प्रगृह्य सः कुदतः पाठयामास सा कामिव महागजः एकपातोक्षणकटि पृष्ठस्तनांसके एकभाङ्कवशिभ्रूकर्णे सकले दत्तृशौ प्रजाः हा हाकारो मका नासीत् सकदेवं तत्तनयं भगवान् भूतभावनः अप्यषिञ्चत्तमेयात्मा मगधानां पतिं प्रभुः मोषयामास राजन्यान् संवृद्धा मागधेन ये इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते जरासन्तवतो नाम द्विसप्ततितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथमहाराज कि